श्रियम् तथा गताम् दृष्ट्वा ज्वलन्तीमिव पाण्डवे अमर्षवशमापन्नो दह्यामि न तथोचितः एवम् स कृत्वा ततो वचनमब्रवीत् पुनर्गान्धारनृपतिम् दह्यमानयि वाग्निना वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् अपोवापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् को हि नाम पुमाल्लोके मर्शयिष्यति सत्त्ववान् सपत्नान् रुध्यतो दृष्ट्वा हीनमात्मानमेव च न स्त्री न चाप्यस्त्री न योऽहम् ताम् मर्शयां यद्यतादृशीम् श्रियमागताम् ईश्वरत्वम् पृथिव्याश्च वसुमत्ताम् च तादृशीम् यज्ञम् च तादृशम् दृष्ट्वा मादृशः को न सञ्ज्वरेत् अशक्तश्चैक एवाहम् हायांश्च न पश्यामि तेन मृत्युम् विचिन्तये